मुद्गलपुराण कंटम ठी महोदरचरित अयिफीन कालगति वर्णनम श्रीगणेशा नम मकंडेयवाच कथित चिंत्र मयारूप विशेष तृप्ति संयुक्त भवामी भृशहर्षि मायारूपमयानादौ न ज्ञादं पूर्णभावतः अदो मां विस्तरेणैव वदतं योगिनां वरौ वर्णाश्रमविभागं वै स्वस्वाचारसमन्वितं युगमानं तथा विप्रो युगधर्मान्विशेषतः पितृदेवासुराणां वै कर्ममार्गं सुतृप्तिदम् सूर्यचन्द्रप्रसूतानां राज्ञां सर्वं चरित्रकं एतानि प्रश्नपीठानि वदतं चर्षिषत्तमौ तत्र द्वन्द्वादिकस्यैव ज्ञानं मे प्रभविष्यति भानुरुवाच एवं पृष्टौ महाभागौ नरनारायणावृषि ऊचतुस्तया युक्तो मार्कण्डेयं तु तापसं नरनारायणवोचतुः सम्यक् पृष्टमहाभागवदिष्यावोकिलं च ते येन मायाचरित्राणां ज्ञानं भवति निश्चलं निमेषमात्रकालो यो लघ् अक्षरसमन्वितः दश पञ्चनिमेषैश्च काष्ठ कालः प्रकीर्तितः त्रिंशत्काष्ठाभिरेवं ह्यः कलाकालः प्रजायते त्रिंशत्कलाभिरेकं वै मुहूर्तम् परिकीर्तितम् त्रिंशन्मुहूर्तमानेन दिवानक्रमयो मदः तैस्त्रिंशद्भिस्तथा कालो मासाख्यो विप्रजायते मासपक्षद्वयाकारशुक्लकृष्णविभागतः मासैर्द्वादशभिसंवत्सरपूर्णश्च जायते द्वाभ्यामाभ्या मृदु प्रोक्तः स षडृदुभिरुच्यते संवत्सरप्रमाणाख्यः कथितः कालवेदिभिः निमेषादिभिरेवं सकालसंवत्सरान्धकः का नानाभावसमायोक्तः कालधर्मं प्रकाशते संवत्सरात्मकः का कालः पञ्चधा परिकीर्तितः आद्य संवत्सरः प्रोक्तो द्वितीयः परिवत्सरः युडावत्सर एवासौ चतुर्धश्चानुवत्सरः वस् सरश्चैव पञ्चैते दे, शृणुतेषां गतिं मुने अङ्गप्रत्यङ्गसंयोगकालेनैव प्रजायते अग्निर्जधरसंस्थश्च कुरुदे सर्वमञ्जसा देहोत्पत्तिस्थितिश्चैव नाशस्तस्य प्रकीर्तितः कालेन ना जायते सर्वं सोऽग्निस्संवत्सरस्मृतः पञ्जानां मुख्यरूपोऽयं कालकर्मप्रवर्तकः देहसंस्तो महायोगी बुधैःकालप्रकथ्यते परिवत्सरनामायं सूर्यकालमयो मुने अयनादिस्वभावेन स्मृतकालस्य चालकः वर्षाशीतोष्णकालेषु ऋदुमासक्रमादिषु कालधर्मं स चरदि प्रकाशयति नित्यशः युडावत्सरनामायं चन्द्रप्रोक्तो मनीषिभिः तरनक्षत्रकादीनां चालकश्च प्रजायते पितॄणां ज्ञानकारी च कालस्यात्त्र न संशयः कालक्रमेण सोमोऽयं दधात्यमृदमंशुभिः ओषधीनामं शुभैर्वै काले भावं प्रकाशते दे। काले देव देवजनानामामृतपानं ददाशि सः अनुवत्सरनामासौ वायुः सर्वत्र पठ्यते प्राणापानादिभिर्भावैश्चालककामकारकः का। आवहप्रवाहाद्यै सनेमिभिर्ज्योतिषां गणम् संचाद कालज कालूक वत्सरोद्रम तथा काल प्रकाशते महालिए सुत्पने लयमोष तल प्रमाणेन त्र्यंक पुनच सषधीना प्रस्रष्टा जायते काल संस्थित गायत्री जगदी त्रिष्ठुबम्बिका नामदस्मृताः ताभिरेकत्वभूताभिस्त्रिविदाभिस्वीर्यतः पुनश्चौषधयसृष्टास्तत्र रुद्रेण कालदः तेनायं कालभावेन जगद्भावयदि प्रभुः एवं पञ्चविधं कालं यो जानातिस्वभावतः न तस्य कालभावस्य दुःखं भवति करिषिचिद् अधुना शृणुविप्रार्षे कालमानं विशेषतः अयनं द्विविधं प्रोक्तं षण्मासात्मकमुच्यते दे। तदेव देवतानां वै दिनमेकं प्रकथ्यते उत्तरायनरूपश्च दिवस्य परिकीर्तितः वै रात्रिस्तेषां प्रकीर्तिता एवं त्रिंशद्भिराख्यादो मासश्चैव महामुने मासैद्वादशभिश्चैव वर्षस्तेषां प्रकीर्तितः एवं सर्वत्र विप्राग्र्यज्ञातव्यं कालजं वपुः शुक्लपक्षमयी रात्रिकृष्णपक्षो हरे पितॄणां सुगतःकालो मासेन दिवसो भवेत् मासौ च द्विविधौ प्रोक्तौ सौरचान्द्रौ विधानदः सङ्क्रमेण रवेर्मासो जायते रिविजस्मृतः पूर्णिमायां सम्पूर्णश्चन्द्रो लोकैः प्रदृश्यते तदा धारेण मासो अधवाक्षिणचन्द्रायाममायां ज्ञायते बुधैः मासश्चान्द्रमसो विप्रद्विविधपरिकीर्तितः तत्रैवम् कारणम् ब्रूवशृणु तत्त्वार्थसिद्धये अधि मासस्तथा लोकैः क्षयमासो मलात्मकः अमायाम् चन्द्रचिह्नेन ज्ञायते नान्यथा क्वचिद स्नानार्थं मासमाहात्म्यं पूर्णिमायां विशेषतः चन्द्रचिह्नेन विप्रर्षे ज्ञातव्यं विबुधैः सदा अन्यच्च पितॄणां कालश्चन्द्रमासेन जायते देवानां पितॄणां स्वर्गे सुधापानं प्रकीर्तितं पूर्णं सोमकलाभूतं चान्द्रमासेन जायते देवानां दिवसे कालसूर्यचिह्नेन जायते शुक्लकृष्णगतिश्चैव कारणं परिकीर्तितम् त्रीणि वर्षसहस्राणि मानुषेण प्रमाणतः त्रिंशताधिकरूपाणि मदसप्तर्षिवत्सरः एवं कालप्रमाणं यत्कथितं ते द्विजोत्तम मृत्युयुक्तं सदा भ्रान्तं ज्ञातव्यं द्वन्द्वः संयुतम् ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमद्दौद्गले महापुराणे तृतीये खण्डे महोदरचरिते कालगतिवर्णनं नाम पञ्चदशोऽध्यायः ओम्